गणेशपुराणं क्रीडाखण्डम् अध्यायम् फोर्टिसिक्स् मुनिरुवाच अविमोक्तवियोगेन परितप्तः शिवस्तदा सर्वार्थवशगं ढुण्ढिं नत्वा प्रार्थय धतुरः शिव उवाच पञ्चानामपि भूतानां कारणानां च कारणम् चिदानन्दफनो विश्वध्येयो वेदान्तगोचरः प्रधानं पुरुषश्चासि गुणत्रयविभागकृत विश्वव्यापिविश्वनिधिर्विश्वरक्षणतत्परः नानावतारकृच्छासि भूभारहरणोद्यदः देवानां पालने शक्रो दैत्यानां निधने तथा द्विजानां चैव धर्माणामार्तानां शरणैषिणां स्वेच्छया पत्यदां यादे त्वयि ब्रह्मस्वरूपिणि कमन्यं शं शरणं यामि काशी विरहदुःखितः ढुण्ढिरुवाच अन्यानेव प्रेषयसि सर्वविद्याविशारदान् सर्वदर्शी कि अर्धं त्वम् मोहमेषि सदा शिव शिव उवाच इदानीमेव गच्छ त्वमविमुक्तं गजानन दिवो दासस्य विघ्नार्थं मम मायया मोहयजनं पुण्यं येनास्य हीयते दुण्डिरुवाच यामिशी क्रमः न चिन्तां कर्तुमर्हसि साधयिष्ये तव हितं दर्शयिष्ये निजां पुरीं बहिष्कृत्य जनपापविभागिनं मुनिरुवाच इत्युक्त्वा शिवमानम्यपार्वतीं च प्रदक्षिणीकृत्य तथा नारदे गुरुमेव च प्रस्थितोऽखिलविद्यानां परानां च निधिर्विभुः प्रापवाणसीुनियाम दृष्टवा दृष्टवान् सद पापमल्य सह रुक्मकाव्यदेहो मुक्त मला विभूषि कड़ीसूत्रम च ना भौधु महारत् विभूषित पीतवस्त्रपरिधानो दिव्यगन्धानुलेपनः कामादिसुन्दरतनुकामिनी जनमोहनः पतिव्रताश्च या नार्यश्च कमुस्था अपि ध्वजम् मनसा चिन्तितम् प्रश्नम् वदति स्म अखिलम् तु सः अधः पतिव्रता नार्यप्रश्नं प्रष्टुं तमन्वयुः विहाय बालकान् भर्तृन् भ्रातॄनन्यान् सुहृज्जनान् स्वप्नान्वदति वददिलोकानं स्वमायादर्शितानसौ सेवतां सर्वलोकानां ददाति सुबहून्वरान् तद्वरस्य प्रभावेण दुष्टकुष्ठो विनश्यति पुत्रिण्यः सर्ववन्ध्याश्च जादास्तद्वरदानदः अस्तम् दृष्ट्वा महाभाग्यं कर्माणि कथयत्यसौ यद्येन जः सम्भुक्त च तत्क्षणात् विस्मिदो नगरे लोकः सर्व आसीन्मुदान्विदः नेदृशो ब्रह्मणो दर्शि सर्ववेत्ता गुणाकरः न भूतो न भविष्यो वा इति लोका वदन्त्यमुं पूजयन्ति धनैरत्नाय ज्ञात्वा इर प्रत्ययमस्य हस्ते धृतानि वस्तूनि कथयत्येव तत्क्षणादरिद्रस्याप्रयत्नस्य प्रष्टुं व्यादस्य वेत्यसौ। स्व। अभिप्रायं स्वयम् तस्य ब्रूदे त्रिदिनमन्तरा भविष्यसि धनाढ्यस्त्वं तथैवासौ भवत्यपि गदं नष्टं कथयति यदा यत्तत्तथा भवेद एव मा चक्षतस्तस्य ढुण्ढेर्विप्रस्वरूपिणः द्वित्रिमासैर्गदावार्ता राजकर्णे जनेजिता जनाऊचुः राजपत्न्योऽपि याश्चान्याः पादिव्रत्यपरायणाः एतावत्कालभर्यन्तं नो भजन्नन्यदेवताः विना पदीं गतास्तास्तु विनाज्ञां तं निरीक्षितुं नो भविष्यति पुत्रो वा कन्या वेदि विचारितुं सखिभिस्तु आकार्यं तु तदस्तास्तु रहस्येदमुपानयन् उपवेश्यासने रम्ये राजपत्न्यः प्रपूजिरे प्रक्षाल्य चरणद्वन्द्वं तद्दर्शनसुविह्वलाः कस्तूरीचन्दनं तस्य शरीरे पर्यमर्दयन् निकटे तस्य काचित्तु भूत्वा दाद्वीडिका स्वयं पप्रचुर्बहु प्रश्नास्तं सर्वां ये वा प्रत्ययेदुसमुत्पन्ने सर्वास्तास्तु विसिस्मिरे एवं ताः प्रत्यहं तस्य दर्शनं पूजनं स्वयम् त्यक्त्वा ता गृहकार्याणि च कृत्सर्वास्तु तत्पराः नैतादृशो दृष्टपूर्वो भूतभव्यभविष्यविद एत्यब्रुवन्स्तुवन्त्यस्तं सर्वज्ञोतिर्विदुत्तमम् उद्धिरे राज्ञि ताशीघ्रं विससर्जुः क्षणादमुं पदिभावं परित्यज्य तमेवा चिन्तयन् सदा दिवोदासोपितं दासोऽपि तं ज्ञात्वा समाकार्य ननाम च परिष्टाप्य पुपूजे विष्टरादिभिः गामर्घ्यं च धनम् वस्त्रमर्पयामस सादरम् ग्रामान् धान्यम् धनम् दास्ये तिष्टात्र निकटे मम चमत्कारा बहुविधा दृष्टा यस्मान्मया त्वयि ततो जगादडुण्डिस्तं प्रपञ्चरहितो नृपम् स्त्रिपुत्रकन्यागारादित्यक्त्वा वाराणसीमगां नग्रामान ग्रामानधनं धान्यं रोचते मे स्पृहस्य एकं वदामि ते वाक्यं हृदि तत्कर्तुमर्हसि इतः सप्तदशे राजन्दिने कोऽपि परः आगत्य स वदेद्यत्तत्कर्तव्यमविचारतः हिदं ते परमं राजन् भविष्यदि न संशयः एतावदा मया धनानि च यदि श्रीगणेशपुराणे क्रीडाखण्डे शोध्यायः ओ